नारदपुराणं उत्तरार्थं अध्यायं 54 फोर् इद्धं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ददौ तस्मै सुभगे सकलं मनसेप्सितं यः सम्पूज्य प्रत्यहं स्तौदिमानवः स्तोत्रेणानेन मदिमान् स मोक्षम् ध्रुवम् त्रिसन्ध्यम् यो जपे द्विद्यानिमम् स्तोत्रवरम् शुचिः धर्मम् च चा कामम् च मोक्षम् च लभते नरः यः पाठे शृणुयाद्वापि श्रावयेद्वा समाहितः सलोकं शाश्वतं विष्णोर्यादि निर्धूतकल्मषः धन्यं पापहरं चेदं मुक्रि भुक, भुक्रिमुक्रिप्रदं शिवं गुह्यं सुदुर्लभं पुण्यं नदेयं देयं यस्य कस्यचिद न नास्तिकाय मूर्खाय न ना कृतघ्नाय मानिने न दुष्टमदये दद्यान्ना भक्ताय कदाचन दातव्यम् भक्तियुक्ताय गुणशीलान्विताय च विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशीलिने इदं समस्ताकविनाशहेतु कारण्यसञ्ज्ञं सुखमोक्षदं च अशेषवाञ्छाफलदं वरिष्ठ स्तोत्रम् मयोक्तं पुरुषोत्तमस्य येतं तं सुसूक्ष्मं विमलाम्बराभं ज्यायन्ति पुरुषं पुराणम् ते मुक्तिभाज्य प्रविशन्ति विष्णुं मन्त्रैर्यथाज्यं यधाज्यं येकः स देवो भव दुःखहन्ता परः परेषां न तदोऽस्ति चन्यः स्रष्टा सपादासकलान्तकर्ता विष्णुः समच्छा किल सारभूतः किं विद्यया किम् सुगुणैश्च तेषां यज्ञैश्च दानैश्च तपोभिरुग्रैः येषां न भक्तिर्भवति ह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च लोके स विद्वान् स एव वक्ता स धर्मशीलः ज्ञाता स दादा स च सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये स्तुत्वैवम् ब्रह्मतनय्यः प्रणम्य च सनातनम् वस्त्रं च तन्मना भुक्त्वा सुष्वापधरणीतले कथं प्रत्यक्षमभ्येदि देवदेवो जनार्दनः मम चिन्ता हरो देवकदा सा विधि चिन्तयन् सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः आत्मानं दर्शय मासस्वप्ने तस्मै च चक्रधृक सददर्श चदं स्वप्ने देवदेवं जगत्पदिं शङ्खचक्रधरं शान्तं गदा पद्माग्रपाणिनम् शार्ङ्गवाणाशियुक्तं च ज्वलतेजोग्रमण्डलम् युगान्तादित्यवर्णाभं नीलवैडुर्यसन्निभं सुपर्णपृष्ठमासीनं षोडशार्धभुजं विभुं स चासौ प्राड्रविद्वीक्ष्य साधु राजन्महामते क्रतुनानेन दिव्येन तथाभक्या च श्रद्धया तुष्टोऽस्मि ते महीपालवृथा किमनुशोचसि यदत्र प्रतिमा राजन् राजपूज्या सनातनी यद्धा प्राप्नुया भूव तदुपायं ब्रवीमि ते गदायामद्य शर्वर्यां नर्मले भास्करोदये सागरस्य जलस्यान्दे नानार्द्रुम विभूषिदे जलम् तथैव वेलायाम् दृश्यते यत्र वै महद लवणस्यो दधे राज्यंस्तरङ्गैः समभिप्लुतम् कूलालम्बीमहावृक्षस्थितस्थलजलेषु च वेलाभिर्हन्यमानश्च न चासौ कम्पदे ध्रुवः हस्तेन तुर्षुमादाय ऊर्मेरं तस्तदो व्रज एकाकी विहरन्त्राजन्यं त्वं पश्यसि पादपम् इदं चिह्नं समालोक्य चेदयत्वमशङ्कितः चात्यमानं तु तं वृक्षं प्रांशुमद्भुददर्शनं दृष्ट्वा तेनैव संचिन्त्य तदा भूपालदर्शनं कुरु तत्प्रतिमां दिव्यां जहि चिन्तां विमोहिनीं जवमुक्त्वा महाभागो जगामादर्शनं हरिः स चापि स्वप्नमालक्ष्य परम् विस्मयमागतः ताम् निःशम् तदस्तद्गतमानसः व्याहरन् वैष्णवान् चैव तदात्मकम् प्रभातायाम् रजन्याम् तु तद्गतो नन्यमानसः स सागरे सम्यग्यथावद्विधिना वद्विधिना दत्त्वा दानं तु विप्रेभ्यो ग्रामांश्च नगराणि च कृत्वा पौर्वाह्निकं कर्म जगाम स नृपोत्तमः न पदातिश्च नगजो न च सारथिः यकाकी स महावेलां प्रविवेश्य महा तेजस्वन्तं महाद्रुमं महान्तकं महारोहं पुण्यं विफलमेव महोत्सवं महाकायं प्रसुप्तं च जलान्दिके सान्द्र माञ्जिष्टवर्णाम्भं नाम विवर्जितम् नरनाथस्तथा विष्णोर्द्रुमम् दृष्ट्वा मुदान्विदः पर्शुना साधयामास शीतेन च दृढेन च द्वैधीभूतामदिस्तत्र बभुवेन्द्रसखस्य च निरीक्षमाणे काष्ठे दो बभूवाद्भुतदर्शनं विश्वकर्मा च विष्णुश्च विप्ररूपथरागुभौ आजग्मदुर्महात्मानौ तथा तुल्याग्रजन्मनौ ज्वलमानौ सूते जोभिर्दिव्यस्रगन्धले बनौ अध सौतं समासाद्य नृपमिन्द्रिसखं तदा तावब्रूदा महाराजत्वं किमत्र करिष्यसि किमयं ते महाबाहो शादितश्च वनस्पतिः असहायो महादुर्गे निर्जने गहने वने महासिन्धुतटे चैव शातीतो वै महाद्रुमः महा, तयो श्रुत्वा वचः सुभ्रु सदु बभाषे वचनान्याभ्यां मृदूनि मधुराणि च दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवा गतौ नमस्कृत्य जगन्नाधाववाङ्मुखमवस्थितः देवदेवमनाद्यन्तममेयं जगदस्पदिम् आराधितुं वैप्रतिमां करोमीतिमधिर्मम अहंस देवदेवेन परमेण महात्मनां स्वप्नादे च समुद्दिष्टो भवद्भ्याम् ्रावितो मया यज्ञस्तद्वचनम् श्रुत्वा देवेन्द्रपदिमस्य च प्रशस्य तस्मै विश्वेश्यस्तुष्टो वचनमब्रवीद साधुसाधुमहीपाल यदेस्तन्मन उत्तमं संसारसागरे खोरे कदली कदलीदलसन्निभे निःसारे दुःखबहुले कामक्रोधसमाकुले इन्द्रियावर्तकलीले दुस्तरे लोमहर्षणे नानाव्याधिशदावर्ते चलबुद्बुदसन्निभे यदस्ते मदिरुत्पन्ना विष्णो राराधनाय वै धन्यस्त्वम् नृपशार्दूलगुणै स प्रजाधरणी धन्या स शैलवनपत्तना सपुरग्राममगराच्चदुर्वणैरलङ्कृता यत्र त्वं नृपशार्दूलप्रजापालयिता प्रभुः ये ह्येहित्वं महाभागद्रुमेऽस्मिन् सुखशीतले आवाभ्याम् सः तिष्ठत्वं कदाभिर्धर्मसंश्रुतः अयं तव सहायार्थमागतः वरः विश्वकर्म समः साक्षान्निपुणः सर्वकर्मसु मयोद्दिष्टां दुःप्रतिमां करोत्येषतडं त्यज श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः सागरस्य तडम् त्यक्त्वा गत्वा तस्य समीपदः तस्थौ स नृपतिश्रेष्ठो वृक्षच्छायाम् सुशीतलाम् ततस्तस्मै स विश्वात्मा तदा काराम् तदा शिल्पिमुख्याय विधिजे कुरुष्वेत्यभ्यभाषद कृष्णरूपं परं शान्तम् पद्मपत्रायते क्षणम् श्रीवत्सकौस्तुभधरम् शङ्खचक्रगदाधरम् गौरम् गोक्षीरवर्णाभेद्वितीयं स्वस्तिकान्तिकम् लाङ्गलास्त्रधरम् देवमनन्दाख्यम् महाबलं देवदानवगन्धर्वयक्षविद्याधरोरघैः न विज्ञादोहि तस्यां तस्तेनानन्द इति स्मृतः भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनां तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् श्रुत्वैतद्वचनम् तस्य विश्वकर्मा सुकर्म कृद तत्क्षणात् कारयामासप्रदिमा शुभलक्षणाः कुण्डलाभ्याम् विचित्राभ्याम् कर्णाभ्याम् सुविराजिताः चक्रलाङ्गलविन्यास हदाभ्याम् भानुसम्मदाः प्रथमं शुक्लवर्णानां शारदेन्दुसमप्रभं सुरक्राक्षं महाकायं फडाविकटमस्तकं नीलाम्बरधरं चोग्रं बलमद्भुतकुण्डलं महाखलधरं दिव्यं महामुसलधारिणम् द्वितीयं पुण्डरीकाक्षं नीलजीमृदसन्निभम् अदसि पुष्पसङ्घाष्यम् पद्मपत्राय ते क्षणम् श्रीवत्सवक्षसम्भ्राजपीतवाससमच्युदम् चक्रकम्बुकरं दिव्यं सर्वभापहरं हरिं तृतीयां स्वर्णवर्णाभाम् पद्मपत्रायते क्षणाम् विचित्रवस्त्रसञ्चन्नाम् हारगेयूरभूषिताम् विचित्राभरणोपेदाम् रत्नमालावलम्बिताम् पीनोन्नतकुजाम् रम्याम् विश्वकर्मा विनिर्म मे सदुराजाद्भुतम् दृष्ट्वा क्षणेनैकेन निर्मिताः दिव्यवस्त्रयुगाच्छन्ना नानारत्नैरलङ्कृताः सर्वलक्षणसम्पन्नास् प्रदिमासु मनोहराः विस्मयं परमं गत्वा इदं वजनमब्रवीद किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ द्वाप्यद्भुत कर्माणौ देववृत्तौ त्वमानुषौ देवौ वा मानुषौ वापि यक्षविद्याधरौ वरौ किं वा ब्रह्मकृषीकेशौ वसुरुद्रावुदाश्विनौ न ना वेत्मि सत्यवद्भावौ मायारूपेण संस्थितौ युवां गदोऽस्मि शरणमात्मानं वददं मम द्विज उवाच नाहं देवो न यक्षो वानदैत्यो न च देवराट न ब्रह्मा न च रुद्रोहं विद्धि मां पुरुषोत्तमम् आर्तिघ्नं सर्वलोकानामनन्दबलपौरुषम् अर्चनीयो हि भूतानामन्दो यस्य न विद्यते पठ्यदे सर्वशास्त्रेषु वेदान्तेषु निगद्यते यदुः कृतध्यानगम्यं च वासुदेवेदियोगिभिः अहमेव स्वयम् ब्रह्मा अहं विष्णुशिवो ह्यहम् यद्रोऽहम् देवराजश्च जगत् संयमनो यमः पृथिव्यादीनि भूतानि त्रयदाग्निर्हुतभुग्यथा वरुणो पां पदिश्चाः धरित्री चमसीतराः यत्किञ्चिद्वाङ्मयं लोके जगस्तावरजङ्गमम् विश्वरूपं चमां मां विद्धिमत्तोऽन्यस्ति किञ्चन प्रिदोकम् ते नृपश्रेष्ठ वरं वरय सुव्रद यदिष्टम् तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् मद्दर्शनमपुण्यानाम् स्वप्नान्तेऽपि न जायते त्वम् पुनर्दृढभक्तित्वात् प्रत्यक्षम् दृष्टवानसि श्रुत्वैवम् वासुदेवस्य वचनम् तस्य मोहिनि रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रम् जगौ नृपः राजोवाच श्रियकान्तनमस्तेऽस्तु श्रीपते पीदवाससे श्रीदश्रीश्रीनिवास नमस्ते श्रीनिकेतन आद्यं पुरुषमीशानं सर्वेशं सर्वशं सर्वतोमुखम् निष्कलम् परमम् देवम् प्रणतोऽस्मि सनादनम् शब्दातीतं गुणातीतम् भावाभावविवर्जितम् निर्लेपम् निर्गुणम् सूक्ष्मम् सर्वज्ञम् सर्वभावनं। शंश चक्रधरम् देवं गदामुसलधारिणम् नमस्ये वरदम् देवं नीलोत्पलदलच्छविम् नागपर्यङ्कशयनम् क्षीरोदार्णववासिनम् नमस्येऽहं हृषीकेशम् सर्वपापहरम् हरिम् पुनस्त्वाम् देवदेवेश नमस्येवरदम् विभुम् सर्वलोकेश्वरम् विष्णु मोक्षकारणमव्ययम् एवम् स्तुत्वा तुतम् देवम् प्रणिपत्य कृताञ्जलिः उवाच प्रणदो भूत्वा निपत्यवसुधातले प्रीतोऽसि यदि मेनाथ वृणोमि वरमुत्तमं देवाः सुराः सगन्धर्वा यक्ष रक्षो महोरगाः सिद्धविद्याधरसाध्या किन्नरा गुह्यकास्तथा ऋषयो ये महाभाग नानाशास्त्र विशारदाः प्रव्रज्ययोगयुक्ताश्च वेदतत्त्वानुचिन्तकाः मोक्षमार्गविधो येऽन्ये ध्यायन्ति परमं पदं निर्मलं निर्गुणं शान्तं यत् पश्यन्ति तत्पदं गन्तुमिच्छामि प्रसाधते सुदुर्लभम् श्रीभगवानुवाच सर्वं भवदु भद्रं ते यथेष्टं सर्वमाप्नुहि भविष्यति यथा कामम् अप्रसादानसंशयः दशवर्षसहस्राणि तथा नवशतानि च अविच्छिन्नमः महाराज्यम् कुरु त्वम् नृपसत्तम प्रपद्यपरमम् दिव्यम् दुर्लभं यत् सुरासुरैः पूर्णम् मनोरथम् शान्तम् गुह्यमव्यक्तमव्ययम् परात्परतरम् सूक्ष्मम् निर्लेपम् निर्गुणध्रुवम् चिन्ताशोकविनिर्मुक्तम् क्रियाकारणवर्जितम् तदहम् दर्शयिष्यामि विज्ञेयाख्यम् परम् पदम् सम्प्राप्य परमानन्दम् प्राप्स्य से परमाम् गतिम् कीर्तिश्च तव राजेन्द्र भवत्वत्र महीतले यावद्धरा नभो यावद् यावच्चन्द्रार्कतारकाः यावत्समुद्राः सप्तैव यावन्मेर्वादिपर्वताः तिष्ठन्ति दिवि देवाश्च यावत् सर्वत्र चाव्ययाः इन्द्रद्यु स्मसरो नाम तीर्थयज्ञाज्यसम्भवम् यत्र स्नात्वा सकृलोकशक्रलोकमवाप्स्यसि दापयिष्यदि यः पिण्डं तदेस्मिन्नम्बुधे शुभे कुसैकविंशमुद्धृत्य शक्रलोकम् गमिष्यति पूज्यमानोऽप्सरोभिश्च गधवैर्गीतनिःस्वनैः विमानेन चरेत्तत्र यावदिन्द्राश्चतुर्दशा सरसो दक्षिणे भागे नैरृत्याम् तु समाश्रुते न्यग्रोधोऽस्ति द्रुमस्तत्र तत्समीपे मण्डपः केतकीवनसंचन्नो नानापादपसङ्कुलः आषाठस्य स्ते पक्षे पञ्चम्यां पितृदैवते वृक्षे नेष्यन्ति नस्तत्र नीत्वा सप्तदिनानि वै क्रीडाविशेषबहुलनृत्यगीतमनोहरैः चामरैस्वर्णदम् दैश्च व्यजनैरत्नभूषणैः व्यञ्च यन्त्यस्तदास्मभ्यम् स्थास्यन्ति परमाङ्गनाः ब्रह्मचारी यदिश्चैव स्नातकाश्च द्विजोत्तमाः वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च वैद्विजाः नानावर्णपदैस्तोत्रायत् ऋग्य जोस्सामनिस्वनैः करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः ततस्तुत्वा दृष्ट्वा च सम्प्रणम्य च भक्तितः नरो वर्षायुधं दिव्यं श्रीमद्धरिपुरे वसेद पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः हरेरनुचरस्तत्र क्रीडते केशवेन वै विमानेनार्कवर्णेन रत्नहारेण राजते सर्वे कामामहाभागे तिष्ठन्ति भवनोत्तमे तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेद कोडिधनपदि श्रीमांश्चतुर्वेदो भवेद्ध्रुवं एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः जगमादर्शनं भद्रे सखितो विश्वकर्मणा स राजा तदा हृष्टो रोमाञ्चिततनुरुहः कृतकृत्यमिवात्मानं मेने सन्दर्शनाद्धरेः तद कृष्णं च रामं च सुभद्रां च वरप्रदं रथैर्विमानसङ्घाश्यैर्मणिकाञ्चनचित्रितैः संवाह्यतास्ततो राजा जयमङ्गलनिस्वनैः आनयामा समदिमान् सामात्य स सा पुरोहितः नानावादित्रनिर्घोषैर्णानाम् वेदस्वनैः शुभैः संस्थाप्य च शुभे देशे पवित्रेषु मनोहरे तदशुभेतिदौ दौस्वर्क्षे कालेच च शुभदक्षणे प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह यथोक्तेन विधानेन विधिदृष्टेन कर्मणा आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः पृथ्विग्भ्यः सविधानेन तदान्येभ्यो धनं ददौ कृत्वा प्रदिष्टां विधिवत् प्रासादे भवनोत्तमे स्थापयामास तान् सर्वान्विश्वकर्मविनिर्मितान् तदस्सम्पूज्य विधिना नानापुष्पैः सुगन्धिभिः सुवर्णमणिमुक्तान् द्यैर्नानावस्त्रायः सुशोभनैः ददौ द्विजेभ्यो विषयान् पुराणि नगराणि च एवं बहुविधान् दत्त्वा राज्यम् कृत्वा यद्धोचितम् इष्ट्वा च विविद्धैर्यज्ञैर्दत्त्वा दान्यनेकशः कृद कृत्यस्ततो राजात्यक्तसर्वपरिग्रहः जगामपरमं स्थानम् तद्विष्णो परमम् पदम् इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे श्रीपुरुषोत्तममाहात्म्ये चतुष्पञ्चाशत्तमोऽध्यायः ओ